नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् इत्युक्ते एतावता बहुकालात् अस्माभिः योगनिष्ठजीवनम् इति विषये पठन्तः स्मः यद् पठामः तस्य व्यवहारे आनयनं कथं करणीयम् इति अपि अस्माभिः चर्चा कृता वयं सर्वे तथा कुर्मः इति अहं चिन्तयामि इत्युक्ते तत्र आहारस्य विषये वा भवतु व्यवहारस्य विषये वा भवतु व्यायामस्य विषये वा भवतु अथवा ये साधनां अधीतवन्तः तस्य अभ्यासस्य विषये वा भवतु इत्युक्ते एतावता शनैः शनैः योगनिष्ठजीवनम् इत्युक्ते किं तस्य व्यवहारे आनयनं कथम् इति अस्माभिः ज्ञातं खलु तत्र व्यवहारे आनयनेन कः लाभः अस्ति इति अपि शारीरिकदृष्ट्या कः लाभः अस्ति इति वयं द्रष्टुं शक्नुमः सरलरीत्या द्रष्टुं शक्नुमः यदा इत्युक्ते सामान्यतया एकमासपर्यन्तं यदा कुर्मः तदानीं शारीरिकरीत्या तत्र इत्युक्ते ये ये युनो मेधाः सन्ति अथवा तत्र स्थूलत्वं यदस्ति ऋषत्वं यदस्ति तद् अपि न्यूनं भवति इति सामान्यतया द्रष्टुं शक्नुमः परन्तु एकमासपर्यन्तम् इत्यपि न केवलं एकदिनम् अथवा एकवारं यदा यो योगनिष्ठ भोजनं योग सात्विकाहारं वयं स्वीकुर्मः चेदपि शरीरे कः प्रभावः इति वयं साक्षात् द्रष्टुं शक्नुमः इत्युक्ते अस्माकम् उदरं सम्यक् भवति तत्र क्लेशाः न भवन्ति इति एकवारं कुर्मः चेदपि लाभः कः इति द्रष्टुं शक्नुमः तत्तु शारीरिकदृष्ट्या वयं सर्वे कर्तुं शक्नुमः यतोहि एतावता साधनां न अधीतवन्तः चेत् तत्र मानसिकदृष्ट्या कः लाभः इति एतावता ज्ञातम् इत्युक्ते यदा साधना कथं तत्र यः या रीतिः अस्ति तस्य अध्ययनं न भवति तावत्पर्यन्तं मानसिकदृष्ट्या कः लाभः इति ज्ञातुं शक्नुमः इदानीं तत्र योगनस्य जीवनमिति विषये एव किञ्चित् इतोपि पश्यामः तर्हि अत्र एतावता परमपुरुषस्य विषये अस्माभिः ज्ञातम् अस्माकं जीवनस्य लक्ष्यं किं मानवधर्मः कः इति एतत् सर्वम् अस्माभिः ज्ञातं तर्हि मानवधर्मः परमपुरुषस्य प्राप्तिः एव इति अस्माभिः ज्ञातं तर्हि परमपुरुषः इति एका सत्ता सा सत्ता सा सत्ता शक्तिशाली वर्तते शक्तिशालिनी वर्तते इति परमपुरुषः शक्तिमान् अस्ति इति वयं जानीमः परन्तु अत्र परमपुरुषः सः सर्वं कर्तुं शक्नोति वस्तुद्वयं विहाय वस्तुद्वयं सः कर्तुं न शक्नोति किम् अस्ति तद् अस्मिन् जगति सः किम् द्वौ विषय द्वौ विषयौ कर्तुं न शक्नोति तत् अस्ति इति चेत् प्रथमः विषयः अस्ति सः इत्युक्ते अत्र जगति परमपुरुषद्वयं न भवितुम् अर्हति स्वस्य निर्माणं सः न कर्तुं शक्नोति इत्युक्ते द्वितीयपरमपुरुषः न भवितुम् अर्हति सः अद्वितीयः अस्ति अद्वितीयः अस्ति एकः एव अस्ति सः स्वस्य एव क्लोन् कर्तुं न शक्नोति इत्युक्ते अस्मिन् जगति द्वितीयः परमपुरुषः इति न भवितुम् अर्हति अतः यदा वयं साधनां कुर्मः तदानीं साधनायां किं भवति इति चेत् गत्वा अस्माकं मनः तस्मिन् परमपुरुषे विलीनं भवति तर्हि अस्माकम् अस्तित्वं न भवति इत्युक्ते यदा साधनां कृत्वा कृत्वा वयम् इदानीं द्वितीयपरमपुरुषः भवामः इति न तथा नास्ति यता जले लवणस्य मिश्रणं भवति तदानीं केवलं जलमेव एव अवशिष्यते एवं यदा वयं साधनां कृत्वा परमपुरुषे विलीनं भवा भवामः अस्माकं मनः न भवति मनः तत्र लुप्तः भवति तर्हि किम् अवशिष्यते इति चेत् केवलं परमपुरुषः एका एव सत्ता अवशिष्यते अस्माकम् अस्तित्वं न भवति तर्हि तस्य परमपुरुषस्य कर्तुं सर्वं कर्तुं सामर्थ्यमस्ति केवलं सः द्वितीयं परमपुरुषस्य द्वितीयपरमपुरुषस्य निर्माणं कर्तुं न शक्नोति इति एकः विषयः अस्ति द्वितीयः विषयः सः किं न कर्तुं शक्नोति इति चेत् सः घृणां कर्तुं न शक्नोति सः घृणां कस्यापि कस्यचिदपि सः का अथवा कानपि सः न द्वेष्टि द्वेषं न कर्तुं कर्तुं न शक्नोति सः एकं तु द्वितीयपरमपुरुषस्य निर्माणं कर्तुं न शक्नोति द्वितीयं तु अन्यं न द्वेष्टि अन्यं न द्वेष्टि इत्युक्ते इत्युक्ते लोके तु मनुष्यः इति वयं पश्यामः चेत् एकः मनुष्यः अन्यं द्वेष्टि द्वेषः तु अद्यत्वे वयं द्रष्टुं शक्नुमः सर्वत्र एवमेव अस्ति इत्युक्ते तत्र रिलिजियन् इत्यस्य आधारेण वा भवतु अथवा स्वार्थस्य आधारेण वा भवतु अथवा अधिकं तत्र किम् अस्ति पवर् कृते वा भवतु बलम् इत्यस्य कृते वा भवतु तत्र क्लेशः सर्वत्र सङ्घर्षः जायमानः अस्ति लोके एकः मनुष्यः अन्यं द्वेष्टि परन्तु परमपुरुषः कानपि कमपि न द्वेष्टि किमर्थमेवम् इति चेत् इदं जगत् सर्वं तु परमपुरुषस्य चित्ते एव जायमानमस्ति खलु तर्हि स्वस्मिन् चित्ते यद् जायते तस्य कुतः द्वेषः कथं भवितुम् अर्हति द्वेषः इत्युक्ते वयं सर्वे अपि परमपुरुषस्य चित्ते वयं सर्वे स्मः तर्हि वयं सर्वे तस्य तस्य निर्माणस्य विषयः वयं तर्हि किमर्थं तस्य कल्पनायां यदस्ति किमर्थं सः तस्य द्वेषं करोति यथा तत्र पुत्रः यदा पिता स्वपुत्रं न द्वेष्टि तथा परमपुरुषः स्वपुत्रम् अथवा पुत्रीं न द्वेष्टि यदा तत्र शिशुः अस्ति बहिः गच्छन् अस्ति तदानीं तत्र यदा सः अधः पतति तदानीं किं करोति पिता ओटिति गच्छति झटिति पुत्रं गृहीत्वा पश्यति ओ सः किं किं जातम् इति तत्र पृच्छति पुत्रं प्रच्छति तर्हि पुत्रः तदानीं सः वदति न न किमपि न जातम् अहं सम्यक् अस्मि इति mm -hmm. वदति अतः शिशुः अस्ति चेत् तदानीं शिशुः रोदिति तदानीं पूर्व पिता तस्य आलिङ्गनं कृत्वा सः वदति न तथा न किमपि न जातम् एवं तत्र सान्त्वनां ददाति खलु एवम् अस्मिन् जगति ये ये सन्ति ये ये जीवाः सन्ति अस्मिन् जगति सर्वे जीवाः परमात्मनः सन्तानः सन्ति अतः अस्मिन् जगति कोऽपि पापी नास्ति पापी इति यदि कोऽपि चिन्तयति अहं पापी अस्मि बहु पापं बहु पापं कृतं मया अतः मम कृते तु परमपुरुषः किमपि न करोति अहं बहु बहु पापी अस्मि अहं सुदुराचार्य अस्मि इति कोऽपि वदति चेत् तथा नास्ति तस्य कृते अपि परमपुरुषः परमपुरुषस्य कृदि प्रेमः अस्ति प्रेमभावः तु सर्वेषां कृते अस्ति इत्युक्ते अस्मिन् जगति अस्माकं जन्म जातं चेत् अस्माकं तु संस्काराः सन्ति एव पापपुण्यम् अस्ति एव तर्हि सुखं दुःखं तु जायते तर्हि तत्र जन्म अभवत् इति कृत्वा पापमपि कृतं तर्हि कोऽपि वक्तुं शक्नोति भवित, वा न मया पापं कृतम् इदानीं तु मम कृते परमपुरुषः किमपि न करोति इति न तथा नास्ति यथा पिता पुत्रस्य कृते पुत्रः कथम कथमपि भवि अर्हति सम्यक् वा भवतु समीचीनकार्यं सः करोति वा तथा भवतु नो सः उत्तमः अपि अनुत्तमः अपि भवतु नाम तथापि पिता पितुः पितुः तत्र पुत्रस्य विषये प्रेमः तु अस्ति एव कदापि तत्र न्यूनता न भवति एवं परमपुरुषः स्वसन्तानं प्रति तस्य परमपुरुषस्य प्रेमभावः वर्तते एव यदा केवलं यदा वयं परमपुरुषस्य आह्वानं कुर्मः चेत् तदानीं सः झटिति आयाति अस्माकं सहायार्थम् अस्मिन् जगति जन्मजातमिति कृत्वा पापपुण्यं तु अस्ति एव तर्हि अस्माकं दुःखं तु भवति एव दुःखं दुःखं विना न भवति कदाचित् एवं भवति कदाचित् अन्यरीत्या भवति तत्र लोके यदा व्यवहारः अस्ति तर्हि दुःखं तु भवति एव परन्तु यदा दुःखं भवति तदानीम् अस्माकं मनः कथम् अस्ति इति अस्माभिः द्रष्टव्यम् इत्युक्ते अस्माकं सर्वेषां दुःखं भवति लोके वासः अस्ति चेत् दुःखं तु भवति एव तर्हि दुःखं भवति चेत् अस्माकं मनः कथमस्ति कदाचित् किं भवति इति चेत् यः पुरुषः योगनिष्ठजीवने व्यस्तः नास्ति तस्य व्यवहारः कथं भवति इति चेत् यदा दुःखम् आयाति तर्हि तदानीं सः तत् सोढुं न शक्य शक्नोति दुःखस्य सहनं न शक्यते तेन तेन पुरुषेण तर्हि सः तर्हि तत्र किं भवति इति चेत् यदा दुःखं सोढुं न शक् तदानीं तत्र तस्य निर्णयाः सम्यक् सम्यक् न भवन्ति यतोहि तत्र तत्र मनसि दुःखम् अधिकम् अस्ति तर्हि चिन्तनं सम्यक् नास्ति परन्तु यः पुरुषः योगनिश्चयजीवने व्यस्तः अस्ति यः साधनां करोति यः सात्विक आहारं स्वीकरोति यः व्यायामं करोति यः आसनानि क करोति यदा दुःखम् अनुभवति तदानीं किं भवति इति चेत् तस्य मनः तस्य मन मनसः अधोगतिः न भवति तदानीमपि तस्य मनः समानरीत्या भवति समत्वरूपेण तिष्ठति तदा तत्र भवति इति चेत् एवं चेत् तत्र मनः अधः न पतति इति चेत् तर्हि तर्हि सः शक्नोति तत्र वास्तविकपरिस्थितिः कथमस्ति तत्र कीदृशनिर्णयः मया करणीयः एवं कुर्म एवं करोमि वा एवं इति सः द्रष्टुं शक्नोति सम्यक्तया आलोचनां कर्तुं शक्नोति यदि साधना साधनां न करोति किमपि न करोति तर्हि लोके एव सर्वदा व्यस्तः अस्ति तदानीं किं भवति इति चेत् मनसि तादृशसामर्थ्यं न भवति दुःखस्य सहनार्थं तदानीं क किं भवति इति चेत् मनः बहु अधोगतिं प्राप्नोति तदा तत्र तस्मिन् सन्दर्भे मया कथं व्यवहर्तव्यम् इति तेन निर्णेतुं न शक्नो तेन तेन निर्णयः कर्तुं न शक, शक्यते तर्हि तत्र किं भवति तदानीं तत्र मानसिक बहु वेदना भवति तेन सः परिस्थितेः सहनं कर्तुं न शक्नोति तदानीं सः अन्यरीत्या अपि चिन्तनं कर्तुं शक्नोति मया इदानीं अहं लोके न वसामि बहु अधिकं जातम् इत् इतः अग्रे दुःखं मया सोढुं न शक्यते इति एवं रीत्या अपि चिन्तयितुं शक्नोति परन्तु यः योगनिष्ठजीवने व्यस्तः अस्ति यः साधनां करोति तस्य मनः बहु स्थिरः भवति तत्र पाषाणखण्डः एव स्थिरः भवति तदानीं किमपि भवतु नाम तदानीं मनः चञ्चलः न भवति मनः मनसः अधोगतिः न भवति इति एवं वयं द्रष्टुं शक्नुमः यः साधनां करोति सः द्रष्टुं शक्नोति इत्युक्ते एतावता न अधीतं चेत् अध्ययनस्य अवकाश अवकाशः अस्ति अस्माकं जीवनं बहु लघु अस्ति अतः तत्र विलम्बः न करणीयः विलम्बः न करणीयः अस्माकं दायित्वम् अस्ति अस्माकं दायित्वम् अस्ति यदा वयं प्रयत्नं कुर्मः तदानीमेव अग्रगतिः भवति इत्युक्ते यदा मया प्रथम प्रथमवारं मया शिबिरं यदा गतं तदानीं मम मनसि अपि बहवः प्रश्नाः आसन् किम् अस्ति किं किं वदति मया तु एतादृशं कदापि न श्रुतं किमर्थम् एवं वदति किमर्थम् एवम् अस्ति इति बहु बहु संशयाः बहवः सं संशयाः आसन् तदानीं तत्र तत् तदानीं किं मया कृतम् इति चेत् अस्तु अत्र किम् उच्यमानमस्ति उच्यमानमस्ति तदहम् एकवारं शृणोमि अहमेकवारं शृणोमि अनन्तरं श्रुत्वा मम जीवने आनयामि इत्युक्ते एकवर्षपर्यन्तं यदा तत्र योगनिष्ठजीवने वयं व्यस्ताः भवामः चेत् केवलम् एकवर्षपर्यन्तं तदानीं वयं द्रष्टुं शक्नुमः मानसिकरीत्या मम अग्रगतिः कथमस्ति अपि च शारीरिकदृष्ट्या मम अग्रगतिः कथमस्ति इति वयं स्वयं द्रष्टुं शक्नुमः केवलं अत्र केवलं प्रवचनं पठामः केवलं श्रुण्मः चेतेन अधिकः लाभः न भवति अधिकः लाभः न भवति यावत्पर्यन्तं व्यवहारे आनयनं नास्ति तावत्पर्यन्तं सम्पूर्णरीत्या अस्माकं जीवनं कथं परिवर्त्यते इति द्रष्टुं न शक्नुमः यदा एक एकवर्षपर्यन्तं साधनां कुर्मः तदा न तदानीं वयं द्रष्टुं शक्नुमः यदा प्रथमवारं मया साधना मया साधना कृता तदानीं तत्र तु मनः तु साधनायां लग्नः मनः लग्नं नासीत् मनः इतः ततः भ्रमति तत्र वानर वानरवत् इतः ततः भ्रमति इति एवं वयं पश्यामः परन्तु शनैः शनैः शनैः एकवर्षानन्तरं द्विवर्षानन्तरं त्रिवर्षानन्तरं वयं पश्यामः चेत् तदानीं तत्र वयं द्रष्टुं शक्नुमः मम अग्रगतिः तु अवश्यमस्ति मम मनः इदानीं स्थिरः अस्ति मम मनः त्रिवर्षपू त्रिवर्षात् पूर्वं मम व्यवहारः कथमासीत् इदानीं कथमस्ति समानपरिस्थितिः यदा समान सन्दर्भः आयाति अस्माकं जीवने तदानीं कथमस्ति मम मम व्यवहारः कथम् आसीत् इदानीं मम व्यवहारः कथमस्ति इति वयं स्वयं परिवर्तनं द्रष्टुं शक्नुमः परिवर्तनं दृष्ट्वा वयम् आश्चर्यचकिताः भवामः तत्र ग्यारण्टि अस्ति तत्र संशयः एव नास्ति इति तदर्थं तत्र यत्नः करणीयः खलु यत्नः न चेत् कथं लभ्यते किमपि भवतु लोके यत्किमपि भवतु यावत्पर्यन्तं यत्नः न क्रियते तत्र न लाभः न भवति इत्युक्ते अत्र अस्माकं डिसेम्बर् मासे शिबिरः अस्ति शिबिरः अस्ति शिबिरम् आगच्छामः चेत् अत्र साधनं अध्येतुं शक्नुमः इत्युक्ते किमर्थं मया शिबिरपर्यन्तम् आगन्तव्यम् अत्र केवलम् आन्लैन् मध्ये अहं पठामि आन्लैन् मध्ये एव अहं सर्वम् अध्येतुं शक्नोमि खलु साधना अपि माध्यमेन अध्येतुं शक्नोमि खलु इति प्रश्नः भवितुमर्हति तत् तथा किमर्थं न भवितुमर्हति इति चेत् अत्र करपत्रस्य पठनम् आन्लैन् माध्यमेन भवितुमर्हति अनन्तरं सात्विक आहारस्य विषये भवितुमर्हति सर्वेषां विषये सर्वेषां विषयाणां तु ज्ञानं भवितुमर्हति परन्तु साधना इति तादृशी वार्ता अस्ति यत्र पुरतः उपविश्य समीपम् उपविश्य किं वदति किं कथं करणीयम् इति अस्माभिः ज्ञातव्यं तत्तु दूरं स्थित्वा कर्तुं न शक्नुमः यतोहि तत्तु साधनायाः मर्यादा अस्ति तत्र उप तत्र पाठयति यः आचार्यः पाठयति तस्य समीपम् उपविश्य सः किं वदति इति गुप्तरूपेण अस्माभिः श्रोतव्यम् यतोहि साधना इति गुप्तविषयः अस्ति इत्युक्ते तत्र गुप्तविषयः इत्युक्ते तत्र बहु तत्र प्राधान्यं वर्तते बहु मुख्यता अस्ति इति कृत्वा गुप्तरूपेण आचार्यः वदति तत्तु आन्लैन् माध्यमेन भवितुं नानाति तदर्थमेव तत्र शिबिरं पर्यन्तम् आगन्तव्यम् इत्युक्ते प्रयासः करणीयः मया आगन्तुं न शक्यते न शक्यते न शक्यते इति न प्रयासः करणीयः कथं कर्तुं शक्नोमि एकवारम् अहं गत्वा पश्यामि क्लेशः नास्ति इत्युक्ते वाराणसी बहु दूरम् अस्ति कथम् आगच्छामि इति तत्र किमपि नास्ति वाराणसी एर्पोर्ट् आयाति चेत् ततः टेक्सी लभ्यते टेक्सी इत्यस्मिन् उपविश्य आगच्छामः चेत् बहु अधिकक्लेशः नास्ति आगच्छामः तत्र एकसप्ताहपर्यन्तं तत्रैव भवामः तदनन्तरं पुनः एर्पोर्ट् गच्छामः ततः अस्माकं गृहं प्रति पुनः विमानं स्वीकृत्य आगन्तुं शक्नुमः इत्युक्ते तत्र क्लेशः भवति इति नास्ति अधिकः क्लेशः नास्ति बहु सरलमेव अस्ति इत्युक्ते वाराणसीपर्यन्तं ट्रैन् माध्यमेन आगन्तुं शक्नुमः अथवा विमानमाध्यमेन अपि आगन्तुं शक्नुमः तत्र न केवलं ये अस्माकं वर्गे इदानीं सन्ति परन्तु ये ये जनाः तत्र ध्वनिमुद्रणं शृण्वन्ति तेषां कृते अपि अहं वदामि तत्र प्रयासः अवश्यं प्रयासः करणीयः यतो हि एतादृशः अवसरः न लभ्यते इत्युक्ते एक मम गृहस्य पार्श्वे एका महिला वर्तते तस्य त्रयः बालकाः सन्ति बहु तत्र यवनावस्थायामेव अस्ति सा महिला तत्र त्रिंशत्वर्षीया वर्षीया स्यात् तस्य तस्य पतिः यः अस्ति सः तस्यापि तादृशः एव वयः त्रिंशत्वर्षीयः एव सा अपि सः तस्य था, था, तस्य, ता, तस्य मरणं जातं तत्र किम् अचानक् इति वदामः खलु तत्र न चिन्तितं तस्य मरणं जायते इति कृत्वा इति तत्र किं वदामः अचानक् इत्यस्य संस्कृतभाषायाम् इदानीं नायाति सडन्लि तत्र तस्य मरणं जातं सा महिला इदानीं किमपि कर्तुं न शक्नोति इदानीं सः बहु यु नो चिन्तिता अस्ति अहं कथं मम शिशूनां पालनं करोमि मम पुत्राणां पालनं करोमि इति चिन्तिता अस्ति इति तत्र, तत्र कदा तत्र मरणम् आयाति इति कोपि वक्तुं न कदा आयाति इत्युक्ते मम मरणं सप्ततिः वर्षाः यदा सप्ततिवर्षाः यदा भवति तदानीमेव मम मरणं भवति इति कोऽपि वक्तुं शक्नोति वा कदापि वक्तुं न शक्नो कोऽपि न वक्तुं शक्नोति इत्युक्ते अद्य भवितुमर्हति श्वः भवितुम् अर्हति कदापि भवितुमर्हति जानामि कोऽपि न जानाति सर्वे चिन्तयन्ति ओ मम मरणं कदापि न आयाति मम मरणं बहु दूरम् अस्ति इति सर्वे चिन्तयन्ति परन्तु तथा नास्ति एव कथं तत्र समयस्य उल्टा पुल्टा कथं जायते इति वक्तु वक्तुं शक्नु शक्नुमः इत्युक्ते समयस्य परिवर्तनं कदा कथं कदा भवति इति कोऽपि वक्तु वक्तुं इति कृत्वा तत्र शुभस्य शीघ्रं यद् करणीयम् अद्य अद्य एव करणीयम् ओ अग्रिम अग्रिमवर्षे अहं पश्यामि साधनायाः विषये अग्रिमवर्षे पश्यामि अग्रिमवर्ष वर्षे पश्यामि इति नास्ति इदानीम् अवसरः अस्ति चेत् इदानीमेव करणीयं नो अग्रिम वर्षे अवसरः भवति वा इति कः जानाति कोऽपि न जानाति खलु अतः अस्माभिः अवश्यमेव प्रयासः करणीयः साधनायाः अध्ययनार्थम् अनन्तरम् अत्र यदा वयं साधनां यदा वयं कुर्मः साधनायाः अध्ययनं किमर्थम् इति चेत् तत्र मोक्षे मोक्षप्राप्त्यर्थं मोक्षप्राप्त्यर्थं यतः तत्र लवणे लवणं लवना, जले मिश्रितं भवति मिश्र, मिश्रित्वा तत्र केवलं जलमेव अवशिष्यते एवं साधनायां यदा अस्माकं मनः विलीनं भवति तदानीं केवलं परमपुरुषः एव अवशिष्यते तादृशमोक्षप्राप्तिः अत्र केवलं साधनाद्वारा एव भवितुम् अर्हति केवलं ज्ञानेन पुस्तकीयज्ञानेन न भवितुम् अर्हति न भवितुम् अर्हति इति वयं स्वयम् अवगन्तुं शक्नुमः अस्माकं जीवने यतोहि पश्यन्तु यदा कोऽपि तत्र पञ्चघण्टापर्यन्तं कोऽपि किमपि तत्र प्रवचनं वदति अथवा किमपि शास्त्रीयविषये किमपि वदति तद्वयं शृण्मः यदा वयं यदा अहं शृणोमि तदानीं बहु सम्यक् अस्ति ओ सम्यक् अस्ति एतद् ओ बहु सम्यक् अस्ति एतत् सम्यक् अस्ति इति सर्वं मनसि वयं इत्युक्ते ज्ञानं भवति यः विषयः उक्तः यः यः यः विषयः उक्तः सः तु तस्य ज्ञानं तु भवति परन्तु तस्य व्यवहारे आनयनम् अस्ति वा कदापि नास्ति कस्यापि नास्ति पश्यतु यः यः यः तत्र यः गुरुः अथवा यः तथा कथितः गुरुः अस्ति यः प्रवचनं करोति सः तस्य तस्य शरीरं यदा पश्यति चेत् सः तु स्थूलः भवति बहु स्थूलः भवति तस्य जीवने आहारस्य नियमाः न सन्ति सः स्वयम् आहारस्य नियमस्य पालनं न करोति इति बहु बहुत्र वयं सर्वे इति न सर्वेषां विषये न वदामि परन्तु वयं बहुत्र यदा यः वदति श्रद्धा इति विषये वदति अथवा अन्य यः कोऽपि विषयः भवति तस्य विषये वदति परन्तु स्वस्य जीवने पालनम् अस्ति वा इति वयं केवलं तस्य शरीरं पश्यामः चेत् वयम् अवगन्तुं तस्य शरीरस्य पालने नियमाः न सन्ति बहु स्थूलः अस्ति चेत् बहु स्थूलः यः पुरुषः अस्ति सः परमपुरुषस्य विषये वदति परन्तु स्वजीवने किमपि न करोति केवलं भाषणमेव करोति चेत् तादृशभाषणस्य श्रवणेन अस्माकं लाभः न भवति यावत् शृण्मः तदानीं सम्यक् भाति परन्तु तत्र तेन उक्तः यः विषयः तत्र एकः विषयः अस्माकं जीवने आनयनं न भवति यदा सत्यम् इति वदति तर्हि सत्यस्य व्यवहारे आनयनं भवति वा अथवा यत्किमपि वदति अल्पाहारम् इति वदति तर्हि अल्पाहारस्य जीवने आनयनम् अस्ति वा नास्ति खलु केवलं श्रवणमेव तर्हि परन्तु अत्र योगनिश्च जीवने तथा नास्ति यद्यद्वयं वदामः तस्य जीवने आनयनं कथम् अस्ति इत्यपि वयं पाठयामः कथं करणीयं कथं कर प्रयासः करणीयः पुनः पुनः कथं प्रयासः करणीयः एतत् सर्वं वयं पाठयामः अध्ययनं कुत्रापि न अन्यत्र लभ्यते एतद् अवश्यं स्मर्तव्यं यद् यदत्र उच्यमानमस्ति तत्तु विलक्षणमस्ति विलक्षणं विलक्षणः विषयः अस्ति अतः तद् ज्ञात्वा सम्यक्तया जीवने वयं पालनं कुर्मः चेत् अग्रगतिः तु निश्चयः निश्चयेन भवति अग्रगतिः तत्र न कोऽपि संशयः न संशयः इत्युक्ते परमपुरुषस्य द्वारः सर्वेषां कृते अस्ति पापी, पापी वा भवतु यः पापी नास्ति पुण्यवान् वा भवतु यः कोऽपि भवतु तस्य कृते अपि परमपुरुषस्य द्वारः अस्ति वयं सर्वे तस्य सन्तानः अस्ति तस्य समीपे गन्तुम् अस्माकम् अवकाशः अस्ति तस्य तत् प्रयासः अवश्यं प्रयासः करणीयः प्रयासः इदानीं न क्रियते चेत् अनन्तरम् अवकाशः कदाचित् न लभ्य लभ्येत तदर्थम् अत्र तदर्थं तत्र यदा तत्र प्रयासं कुर्मः तदानीं शनैः शनैः शनैः शनैः शनैः मनः मनसः वर्धनं भवति विस्तारः भवति मनसः मनसः विस्तारः भवति विस्तारः तत्तु साधनाद्वारा विस्तारः भवति तदानीं यदा साधनां कुर्मः परमपुरुषस्य चिन्तनं कुर्मः परमपुरुषस्य विषये अस्माकं चित्तं केन्द्रीकृतं यदा भवति तदानीं तत्र रसः अपि आयाति यदा भक्तिभावः अस्ति तदानीं रसः आयाति परमपुरुषः रसो वै सः रसः यत्र अस्ति तत्र एव परमपुरुषः यत्र भक्तिभावः नास्ति तत्र परमपुरुषः कदापि न भवितुमर्हति अतः भक्तिभावस्यापि आवश्यकता अस्ति अनन्तरं सेवा सेवा अपि अस्माभिः करणीया जगत् तु वर्तते इदं जगत् नास्ति मिथ्या इति वक्तुं न शक्नुमः मिथ्या इति वयं वदामः चेत् अग्रिम अग्रिमक्षणे यदा भोजनं कुर्मः तदानीं मिथ्या जगत् किमर्थं भोजनं कुर्मः अत्र बहिः यः कोऽपि अस्ति यः कार्यं करोति सः तु भोजनं सम्पादनार्थमेव कार्यं करोति खलु तर्हि जगत् नास्ति चेत् किमर्थं कार्यं करोति किमर्थं सर्वं करोति अतः जगत् तु अस्ति परन्तु तत्र तत्र सत्यं नास्ति इत्युक्ते तत्र सापेक्षिकसत्यत्वम् अस्ति इट् एस् अलेटिव् रियालिटि इत्युक्ते मिथ्या इति नास्ति मिथ्या इति न वदामः तस्य सापेक्षिकसत्यत्वं वर्तते जगतः सापेक्षिकसत्यत्वं वर्तते अतः तत्र अस्माकं मनः मनसः वर्धनं कथं भवति इति चेत् यदा यदा वयं सेवां कुर्मः निःस्वार्थसेवा यदा भवति तदानीमेव अस्माकं मनसः वर्धनं भवति निस्वार्थस्य सेवा केन कर्तुं शक्यते इति चेत् केवलं यः साधकः अस्ति यः साधनां करोति सः एव निःस्वार्थसेवां कर्तुं शक्नोति यः यः यह, यः पुरुषः अथवा या महिला साधनां न करोति तेन अथवा तया निस्वार्थसेवा न क्रियते यतोहि तत्र निस्वार्थसेवां कर्तुं तत्र मनसः वर्धनम् अपेक्षितं नो चेत् किं किं भवति इति चेत् यदा अहं किमपि किञ्चित् करोमि तदानीम् अहं चिन्तयामि ओ मया बहु कृतं मया बहु कृतमस्ति म अहं महान् अस्मि इति तादृशभावना आयाति अहं महान् अहं यद्यपि मया यद्यपि मया किञ्चिदेव कृतं किञ्चित् बहु किञ्चित् तथापि मम बहु तत्र किमस्ति अहङ्कारः आयाति ओ मया बहु कृतं बहु तस्य कृते एवं कृतं तस्य कृते वस्त्रं दत्तं तस्य कृते धनं दत्तं मया तस्य कृते भोजनं दत्तं मया इति अहङ्कारः भवति अथवा कुत्रचित् वार्तापत्रिकायां मम नाम भवतु मया एवं कृतमस्ति इति अत्र अत्र तत्र किम् अड्वटैस्मेण्ट् कर्तुम् इच्छा इच्छा भवति परन्तु यः साधकः अस्ति सः जानाति किमर्थं सेवा करोति इति सेवा किमर्थं करोति इति चेत् केवलं परमपुरुषस्य प्रीत्यर्थं परमपुरुषस्य तृप् त्रिप, एव सः सेवा सेवां करोति अतः तस्य मनसि अहङ्कारस्य भावः न भवति यतो हि सः जानाति किमर्थं सेवा करोति इति सेवां करोति इति सः जानाति इत्युक्ते एवमेव सेवा सेवां करोति इति नास्ति सः जानाति किमर्थं सेवा करोति सेवां करोति इति सः जानाति तर्हि किमर्थं करोति इति चेत् परमपुरुषस्य प्रीत्यर्थं परमपुरुषः तृप्तः भवतु इति विचिन्त्य करोति सः तु केवलं परमपुरुषस्य यन्त्रः अस्ति सः तु स्वस्य कृते तस्य अहङ्कारस्य कृते न करोति परमपुरुषस्य यन्त्ररूपेण सः सेवां करोति खलु अतः इति इति तस्य अहङ्कारस्य भावः न भवति तर्हि अस्मिन् जगति अग्रगतिः अग्रगतिः भवेत् चेत् अवश्यम् अस्माभिः सेवा करणीया साधना करणीया साधना यदा साधनां कुर्मः तदानीं मनसः विस्तारः भवति अनन्तरं भक्तिभावेन मनसि रसः आयाति तदनन्तरं सेवां कुर्मः चेत् अस्माकम् अग्रगतिः भवति यदा अग्रगतिः भवति तदानीं तदस्थितिः भवति तदस्थितिः इत्युक्ते परमपुरुषस्य चिन्तने एव वयं भवामः सर्वदा परमपुरुषस्य चिन्तने वयं भवामः ब्रह्मभावे वयं भवामः एत एतत् त्रयम् अपि कुर्म कुर्मः चेत् एतदेव भागवतधर्मः भागवतः धर्मः कः इति चेत् साधना साधनया विस्तारः मनसः विस्तारः अनन्तरं रसः भवति भक्तिभावेन रसः भवति मनसि रसः यत्र रसः अस्ति तत्र परमपुरुषस्य वासः अस्ति अनन्तरं सेवा सेवा यदा सेवां कुर्मः तदानीं मनस् मनसि ये मलाः सन्ति ये दोषाः सन्ति षड्रिपुः षड्रिपवः अष्टपाषाः तेषां सर्वेषां नाशः भवति अस्माकं संस्काराणामपि नाशः भवति से निस्वार्थसेवया एवम् एवम् एवम् अग्रगतिः यदा भवति तदानीं तदस्थितिः भवति परमपुरुषस्य चिन्तने वयं विलीनं भवामः ब्रह्मभावे एव सर्वदा भवामः तदानीं भ्रमभावे एव सर्वदा भवामः भवामः चेत् ब्रम एव तेन गन्तव्यं तर्हि ब्रह्म एव भवति तर्हि भ्रम एव भवति इत्युक्ते तस्मिन् एव विलीनं वयं भवामः ब्रह्मणि विलीनं वयं भवामः इति अत्र उक्त्वा अत्र कोऽपि प्रश्नः अस्ति वा न नो चेत् अत्र अस्माकं करपत्रं प्रति गच्छामः तर्हि अत्र अस्माभिः आयम संसारः कः इति करपरपत्रं पठन्तः स्मः तत्र अस्माभिः दृष्टं परमपुरुषः अनादि अनन्तसत्ता वर्तते तत्र सगुणब्रह्म निर्गुणब्रह्म इति अवस्थाद्वयम् अस्ति सगुणब्रह्मणि प्रकृतेः प्रभावः प्रकृतेः ये त्रयः गुणाः सन्ति तेषां गुणानां प्रभावः भवति पुरुषस्य उपरि येन तत्र जगत निर्मितं भवति परिदृश्यमानं जगत् निर्मितं भवति निर्गुणावस्थायां प्रकृतिः अपि अस्ति पुरुषः अपि अस्ति परन्तु प्रकृतेः गुणाः पुरुषस्य पुरुषस्य उपरि तस्य गुणानां प्रभावः न भवति इति कृत्वा तस्याम् अवस्थायां जगत् नास्ति केवलं पुरुषः निर्गुणावस्थायां भवति तत्तु निर्गुणब्रह्म इति वयं वदामः ब्रह्म इत्युक्ते पुरुषः प्रकृतिः द्वयमपि द्वयोः पृथक्करणं न शक्यते द्वयोः अपि अविनाभावसम्बन्धः अस्ति यत्र प्रकृतिः अस्ति तत्र पुरुषः अपि अवश्यम् अस्ति द्वौ द्वौ अपि कागदस्य उपरि अद तत्र भागद्वयम् इव अस्ति इव तर्हि अत्र अपि च अस्माभिः उक्तं तत्र इदं जगत् तु केवलं परमपुरुषस्य चित्ते कल्पनामात्रम् अस्ति वास्तविकं नास्ति यद्यपि वास्तविकं नास्ति परन्तु तत्रापि जगतः सापेक्षिकसत्यत्वम् अस्ति तस्य निराकरणं न शक्यते जगतः निराकरणं न शक्यते तर्हि तत्र प्रथमतया अत्र घण्टारूपेण तत्र घटीरूपेण वयं पश्यामः चेत् तत्र एकवादनम् एकवादने तत्र एक एक द्वादशवादनात् त्रिवादनपर्यन्तं परमपुरुषस्य मनसः निर्माणं भवति तत्र त्रयः अंशाः सन्ति ततः गुणस्य प्रभावेण तमोगुणस्य प्रभावेन तत् उपरि तमोगुणस्य प्रभावेण तत्र पञ्चभूतानां निर्माणं भवति षड्वादनपर्यन्तं पञ्चभूतानां निर्माणं भवति प्रत्येकं भूते तत्र किं तन्मात्रं भवति इत्यपि अस्माभिः दृष्टं तर्हि पञ्चतन्मात्राणामपि तत्र तत्र अस्ति एक एकैकस्य भूतस्य तन्मात्रमपि अस्ति अत्र आकाशे शब्दतन्मात्रमस्ति तदनन्तरं वायौ शब्दस्पर्शतन्मात्र तन्मा तन्मात्रे स्तः अनन्तरम् अग्नौ रूपतन्मात्रमपि अस्ति शब्द शब्दतन्मात्रं स्पर्शतन्मात्रम् इति अतिरिच्य अनन्तरं जले रसतन्मात्रमपि अस्ति शब्दरूपशब्दरूपरसतन् शब्दरूपस्पर्शतन्मात्रम् अतिरिच्य तन्मात्राणि तन्मात्राणि अतिरिच्य तदनन्तरं पृथिव्यां तु पञ्चतन्मात्राणि अपि सन्ति गन्धतन्मात्रमपि अस्ति इति तावदस्माभिः दृष्टं तर्हि इदानीं ततः अग्रे अस्माभिः गन्तव्यम् तर्हि एतत् सर्वं तु परमपुरुषस्य चित्ते कल्पनामात्रमिति उक्तं तर्हि तत्र महत्तत्वं अहं तत्त्वस्य अपेक्षया स्थूलतरम् अस्ति अहं तत्वं चित्तस्य अपेक्षया स्थूलतरमस्ति इति तत्र अस्माभिः अनन्तरं तत्र क्षितितत्त्वम् इति यदस्ति तत्तु क्षितितत्त्वं सर्वेषां भूतानाम् अपेक्षया बहु स्थूलतरम् जडरूपेण तत् तर्हि <míner> तस्मात् एव ततः अग्रे इदानीं तत्र जडरूपे जडरूपेण क्षितितत्वं तिष्ठति प्रकृतेः तमोगुणस्य प्रभावेन nah तत्र चित्तस्य उपरि तमोगुणस्य प्रभावः यदा भवति तदानीं क्षितितत्त्वस्य निर्माणं जातम् आविर्भावः जातः तर्हि ततः अग्रे यदा तमोगुणस्य प्रभावः भवति चित्तस्य उपरि तदानीं इतोपि अधिक अधिकं भूतस्य निर्माणं न भवति तस्य प्रभावेन किं भवति इति चेत् तमोगुणस्य प्रभावः यदा क्षितितत्वस्य उपरि अधिकम् अधिकं भवति तदानीं तस्मात् यदा अनुकूलवातावरणमस्ति तदानीं तस्मात् जीवः आयाति इति आश्चर्यस्य विषयः अस्ति तत्र क्षितितत्वात् जीवः आयाति तर्हि यदा अनुकूलवातावरणमस्ति यदा अनुकूलवातावरणं नास्ति तदानीं तत्र जीवः न आयाति परन्तु तत्र स्थितितत्त्वस्य विस्फोटः जायते विस्फोटः यदा भवति तदानीं स्थितितत्त्वं चूर्णीभूय तस्मिन् तस्मिन् भूते तस्य मेलनं भवति इति अस्माभिः तर्हि इदानीं यदा जीवस्य आविर्भावः भवति ततः अग्रे क्रमेण यदा तत्र यदा जीवः आयाति तदानीं जीव जीवेन सह तत्र अणुमनः अपि आयाति अनन्तरं जीवात्मा अपि आयाति तदानीं जीवात्मनः भागः भवति अनुमनसः अपि भागः भवति यः भूमा मनः आसीत् त्रिवादने तस्य एव विभागरूपेण प्रकटीकरणं भवति षड्वादने तदानीं यः जीवः आयाति तस्मिन् जीवात्मा अपि अस्ति मनः अनुमनः अपि आयाति तर्हि प्रथमं तत्र एककोषः जीवः आयाति तस्मिन्नपि मनः वर्तते जीवात्मा अपि तस्य क्रमेण विकासः यदा भवति तदानीं मनसः वर्धनं भवति शारीरिकरूपेण अपि वर्धनं भवति क्रमेण तत्र सस्यानां निर्माणं भवति तदनन्तरं पशूनां निर्माणं भवति तदनन्तरं दशवादने मनुष्याणां निर्माणं भवति मनुष्याणां निर्माणं भवति मनुष्येषु मनः मनः बहु विकसितं वर्तते इति कृत्वा तत्र तेषां तेषां कृते परमात्मनः प्रतिबिम्बः चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति सम्पूर्णरी सम्पूर्णरीत्या मनसि प्रकटीकृतः चैतन्यस्य प्रकटीकरणं भवति तर्हि तादृशपुरुषे यतोहि चैतन्यस्य सम्पूर्णतया प्रकटीकरणम् अस्ति इति कृत्वा मनुष्येषु परमपुरुषस्य प्राप्त्यर्थं तस्मिन् आकाङ्क्षा भवति अन्येषु जीवेषु तादृश तादृशी आकाङ्क्षा नास्ति केवलं मनुष्येषु परमपुरुषस्य प्राप्त्यर्थम् इच्छा भवति एषणा भवति इति कृत्वा यदि सः प्रयासः करो प्रयासं करोति तर्हि तस्य अग्रगतिः अवश्यमेव भवति इति एतावता अस्माभिः दृष्टम् इदानीं किञ्चित् अग्रे, अग्रे गच्छामः अस्माकं करपत्रे प्रकृतेः अधिकप्रभावः पुरुषं स्थूलतरं करोति यत्र प्रकृतेः प्रभावः न्यूनः तत्र पुरुषः सूक्ष्मतरः अस्ति अतः एव श्रुतितत्त्वे प्रकृतेः अत्यन्तप्रभाव चैतन्यं सर्वथा निर्जीवं करोति स्थिति दर्शन मत निर्जीव भाषते प्रकृते प्रभाव पराकोटि वनस्पत पशव च निर्जीवा चैतन्यं प्रतिबिंबित अस्थित पंचभूते उत्पाद ब्रह्मण चित स्थित्रपेण प्रकटित आस अदुना, वनस्पति रूपं गृह्णाति इति अर्थः अत एव ब्रह्मणः शरीरात् निर्मिता इति उच्यते इति तत्त्वं तु निर्जीवं अस्ति परन्तु तस्मात् उत्पन्नेषु पशु वनस्पतिषु च प्रतिबिम्ब प्रति चैतन्यं वर्तते ते वनस्पतयः पश्व पश्व च न निर्जी ते अवश्य ही क्षतितत्वा सूक्ष्मतरा सी एवं स्थित भवि यहाँ पशव चर्मीता कुछ सृष्टौ क्षतितत्वर्माण पर्यतम दृश्य वस्तुतः वनस्पत पशव चितितत्वापेक्षाया सूक्ष्मतराः सन्ति अतः श्रुतितत्त्वे स्थूलतमं रूपं प्राप्य सृष्टिः ततः अग्रे सूक्ष्मरूपं प्रति प्रगच्छति इति सूचना प्राप्यते इदानीं यद् भगिनी भवती उक्तवती दत्तमस्ति वयं पूर्वं दृष्टवन्तः द्वादश यत्र अस्ति घटी घटी तत्र परमपुरुष सूक्ष्मतमम् तत्र किं तत्र तदनन्तरं परमपुरुष प्रकृतिप्रभावेण गुणान्वित भवति तदनन्तरं महत्तत्त्वम् अहमस्मि अहं तत्त्वम् करोमि चित्तम् इति आगच्छति तत्र यत् पूर्वजगत् वयं दृष्ट् पश्यामः तत् जगत् इति सगुणब्रह्मण इति वयं वदामः इदानीं प्रकृतेः प्रभावेन यत् निर्गुणब्रह्मणम् इति सगुणब्रह्मणं भवति तस्य यत् कल्पना अस्ति चित्ते तस्मिन् पूर्व सृष्टिः आकार कल्पिता भवति तत् कल्पिता भवति वयं दृष्टवन्तः चित्त एव तदनन्तरं पञ्चभूतानि यत् परिवर्तितं भवति तत् क्रमेण आकाश आकाशवायु तेजस् जलं पृथ्वी इति पञ्चभूतानि आगच्छन्ति तस्मिन् एकमेकम् अधिकम् अधिकं सूक्ष्मता सूक्ष्मतात् स्थूलतमं यत् अस्ति तत्र एकमेकम् अधिकं तन्मात्रा आगच्छति तयातत्त्वम् इति स्थूलतमं भवति अत्रतत्त्वम् अस्ति इति स्थूलतमं पुरुषः एव श्रुतितत्त्वे इति परिवर्तितम् अस्ति प्रकृते प्रकृतेः प्रभावेण किन्तु इति कल्पना अस्ति अहं तत्त्वस्य चिते इदानीं कथं जगति तत्र निर्जीवमस्ति तत्र अचर अस्ति तत् किन्तु वयं तत् जगति स्थावरं जङ्गमम् इति वयं वदामः चरम् अचरम् इति द्रष्टुं द्रष्टुं शक्नुमः यत्र चैतन्यरूपमपि अस्ति कथं निर्जीवं स्थिति तत्त्व इति स्थूलतमम् अस्ति चैतन्यं कथम् आगच्छति अत्र उक्तमस्ति श्रुतितत्त्वे चैतन्यं प्रतिबिम्बितं भवति यदि चैतन्यं प्रतिबिम्बितं भवति गत्र यथा भवती उक्तवती एककोष जीव तदनन्तरं बहवकोशजीवानि जीव जीवानि भवन्ति तदनन्तरं वनस्पतय अपि पक्षिणः पशवः अन्ते मानव इति अधिकं स्थितिः अस्ति विकासस्य विकसितं भवति तु श्रुतितत्त्वलतमं रूपम् अस्ति तदनन्तरं यदि चैतन्यं प्रतिबिम्बितं भवति तत् पुनः सूक्ष्मप्रति प्रति सञ्चलनं आरम्भते इति अस्ति तु प्रष्टवन्तः पुरुषात् सूक्ष्मतात् सूक्ष्मतमम् अस्ति तस्मात् स्थूलतमं स्थितितत्त्वम् आगच्छति द्वादश षट्पर्यन्तं तदनन्तरं षट्पर्यन्तं पुनः द्वादशपर्यन्तं यत् प्रतिसञ्चलनं भवति तत्र सूक्ष्मतमं प्रति सञ्चलनं भवति इति अस्ति प्रतिबिम्बचैतन्यम् इति इदानीं नूतन बिन्दुः अस् दत्तमस्ति अत्र साधु भगिनि आमामां सम्यक् सम्यक् समीचीनं भगिनी इदम् अयं परिच्छेदः बहु मुख्यः अस्ति बहु बहु मुख्यः अस्ति अत्र प्रतिबिम्बं कुत्र भवति इति न दत्तमस्ति साधु किं प्रतिबिम्बं चैतन्यस्य प्रतिबिम्ब कुत्र भवति इति न दत्तमस्ति अत्र साधु अस्मिन् परिच्छेदे कुत्र भवति इत्युक्ते मानसिक मनसि भवति इति तत् तद, तद्वा मनसि वेदान्ते बुद्धि इति इत्युक्ते अत्र तत्र रिफ्लेक्टिङ्ग् प्लेट् इति मैण्ड् मैण्ड् इस् दिफ्लेक्टिङ्ग् प्लेट् आफ् कान्शियस्नेस् इति अहमि इति तस्य विवरणं प्रायः अग्रे आयास्यति अस्तु परन्तु अत्र हा अन्तःकरणस्य अन्तःकरणम् अन्तःकरणम् अन्तःकरण मनः मनसः यः ये अंशाः सन्ति तेषां सर्वेषां मिलित्वा अन्तःकरणम् इति वयं वदामः अस्तु अत्र अत्र अयं परिच्छेदः बहु मुख्यः अस्ति बहु मुख्यपरिच्छेदः अस्ति तर्हि अत्र किमुक्तम् इति चेत् पञ्चभूतपर्यन्तं सर्वं तत्र स्थूलानि इत्युक्ते पञ्चभूतानि स्थूलानि तत्र क्षितितत्त्वं बहु स्थूलतमं वर्तते तर्हि इदानीं प्रकृतेः प्रभावः प्रभावस्य पराकाष्ठा प्राप्ता पीक् आफ् द प्रकृतेः प्रभावः प्रकृतेः प्रभावस्य पराकाष्ठा प्राप्ता तर्हि इदानीं पराकाष्ठा प्राप्ता चेत् इदानीं लोके वयं तु सस्यानि अथवा पशून् वयं द्रष्टुं शक्नुमः मनुष्यान् द्रष्टुं शक्नुमः केवलं स्थितितत्त्वमेव तावत्पर्यन्तमेव प्रकृतेः प्रभावः ततः अग्रे भवति इति चेत् इदानीं एते सर्वे सस्यानि पशवः मनुष्याः एते सर्वे, सर्वे अपि ततः एव स्थितितत्वात् एव ते सर्वे आगच्छन्ति जीवरूपेण जीवरूपेण आगच्छन्ति तत्तु मया उक्तमस्ति तर्हि इदानीं क्षितितत्त्वमेव सस्यरूपेण पशुरूपेण आगच्छति कथम् आयाति इति तु बहु अद्भुतवार्ता अस्ति बहु आश्चर्यस्य विषयः अस्ति खलु तत्र क्षितितत्वात् कथं जीवस्य आविर्भावः इति आश्चर्यस्य वार्ता अस्ति जीव तत्र क्षितितत्वं तु जडः जडः अस्ति तत्र चैतन्यस्य pierans ya tarhi idarin tatra chititattvam tu bahu jada jada padarthah asti sampurnataya jadam asti tatra chaitanyasya prabhavah chaitanyasya pratibimbah nadrisyate there is no awareness in the in the stone it is less like an animate, inanimate thing right tarhi a parantu a तत्र सस्यानि ये सन्ति पशवः सन्ति मनुष्याः सन्ति ते तेषां तु चैतन्यप्रतिबिम्बं चैतन्यस्य प्रतिबिम्बं वर्तते ते तु स्थूलानि न सन्ति ते स्थूलानि सन्ति कथं एते एते इतोपि सूक्ष्मतर पदार्थाः कथं पञ्चभूतात् एते सर्वे आविर्भूताः इति अस्माभिः द्रष्टव्यम् अस्मिन् विषये तत्र लौकिकवैज्ञानिकाः अपि अधिकं वक्तुं न शक्नुवन्ति यतोहि तत्र क्षितितत्वात् तत्र तत्त, इतोपि शोधकार्यस्य आवश्यकता अस्ति कथं क्षितितत्त्वात् जीवस्य आविर्भावः अपि क्षितितत्त्वं तु पुरुषात् एव निर्मितम् इति एतत् सर्वं वैज्ञानिकैः वक्तुं न शक्यते तर्हि इदानीं तत्र यद् यद् यद, यद, पाषाण यः पा वर्तते यः पाषाणखण्डः वर्तते तत्तु स्थूलतमः अस्ति स्थूलतमः परन्तु पुरुषस्य रूपम एव रूपम् अस्ति पुरुषेण एव तद् निर्मितमस्ति पुरुषः एव सामग्री अस्ति पुरुषः तु जीवः अस्ति पुरुषः तु पुरुषे तु जैवीभावः अस्ति परन्तु कथं स्थितितत्त्वात् जन्तूनां निर्माणं भवति तर्हि तत्र यः यः निर्गुण यः पुरुषस्य समुद्रः वर्तते पुरुषस्य समुद्रः तत्र तु जैवीभावः अस्ति तत्तु जडः नास्ति जडपदार्थः नास्ति परन्तु क्षितितत्त्वं च जडपदार्थः अस्ति कथं जडपदार्थात् जीवानाम् आविर्भावः इति वयं पश्यामः चेत् यदा तत्र तमोगुणस्य प्रभावः अधिकः अधिकः अधिकः भवति क्षितितत्त्वस्य उपरि तदानीं किं भवति इति चेत् तदानिम् यदा अनुकूल वातावरणं भवति अनुकूल वातावरणं इत्युक्ते वायुः अग्निः जलम् एतत् सर्वम् आकाशः एतत् सर्वं समीचीनरूपेण यदा भवति तदानिम् तदानीं तत्वस्य उपरि यदा तमोगुणस्य प्रभावः अधिकः भवति तदानीं तत्र भवति इति चेत् तत्र स्थितितत्वात् जीवस्य आविर्भावः भवति जीवस्य आविर्भावः भवति यदा तत्र अनुकूलवातावरणं नास्ति अनुकूलवातावरणं नास्ति चेत् तत्र क्षिति क्षितितत्त्वस्य उपरि तमोगुणस्य प्रभावः भवति चेत् तदानीं तत्र जडस्फोटः भवति तत्र क्षितितत्त्वे या शक्तिः अस्ति तेन क्षितितत्त्वं चूर्णीभूय चूर्णीभूय जडस्फोटः जडस्फोटः भवति यदा जडस्फोटः भवति तदानीं तत्र चूर्णीभूतः चूर्णीभूतः यः पृथ्वी अस्ति या पृथ्वी अस्ति सा तत्र तु पुनः अन्येषु भूतेषु तस्य तस्याः मेलनं भवति इति अत्र अत्र वार्ता अस्ति तर्हि एतावता तत्र सञ्चरधारा इति अस्माभिः दृष्टं स्थूलपर्यन्तं गमनं ततः अग्रे इदानीं स्थूलात् सूक्ष्मपर्यन्तं गमनम् इदानीं यत्र प्रतिसञ्चरधारा अस्ति षड्वादनात् द्वादशवादनपर्यन्तं प्रतिसञ्चर्धारा इति वदामः अयं तु क्रमः स्थूलात् सूक्ष्मपर्यन्तं गमनम् इति तादृशक्रमः तादृशप्रक्रिया अस्ति इदानीम् अस्यां प्र... अस्यां प्रक्रियायां सत्त्वगुणस्य प्रधानता वर्तते सत्त्वगुणं सत्त्वगुणः प्रधानः भवति तर्हि इदानीं तादृशस्थितितत्वात् जीवानां क्रमेण निर्माणं भवति एककोशः सस्यानि पशवः तदनन्तरं मनुष्याः तर्हि अत्र सत्त्वगुणस्य प्राधान्यं भवति अपि च यदा जीवानां वर्धनं भवति तदा तदानीं तेषां मनः मनसः अपि वर्धनं भवति वर्धनं भवति तर्हि इदानीं यदा दशवादने मनुष्याणां निर्माणं यदा भवति तदानीं मनुष्येषु मनः बहु वर्धितं वर्तते वर्धितं वर्तते तर्हि तादृशमनसि चैतन्यस्य संपूर्णतया, प्रतिबिम्बः भवति यता तत्र उदाहरणं कथमस्ति इति चेत् तत्र आ, तत्र मार्गे यदा वयं जलाशयं वयं पश्यामः लघुजलाशयं वयं पश्यामः तदानीं तत्र किं भवति इति चेत् तत्र जलाशये यदा मलिनाः सन्ति जलाशयं जलाशयः यदा मलिनः अस्ति तत्र मलाः सन्ति तदानीं रात्रौ चन्द्रस्य प्रतिबिम्बः तत्र सम्यक्तया न तत्र केवलं किञ्चित् दृश्यते परन्तु सम्पूर्णरीत्या रीत्या न दृश्यते यतोहि तस्मिन् जले मलाः सन्ति परन्तु यस्मिन् जलाशये मलाः न सन्ति बहु स्वच्छ स्वच्छम् अस्ति तदानीं जलाशयः स्वच्छः अस्ति तदानीं तत्र किं भवति इति चेत् तस्मिन् रात्रौ तत्र किं भवति इति चेत् तस्यां रात्रौ तत्र चन्द्रस्य प्रतिबिम्बः सम्पूर्णतया दृश्यते यतोहि तत्र जलाशयः स्वच्छः अस्ति एवं तत्र मनुष्यस्य स्थरे, अस्माकं मनः बहु वर्धितम् अस्ति तत्र त्रयाणाम् अंशानाम् अपि सम्यक् वर्धनमस्ति मनसः त्रयाणाम् अंशानां वर्धनमस्ति इति कृत्वा तत्र मनः सम्पूर्णतया जलाशयः जलाशयवत् तत्र चैतन्यस्य प्रतिबिम्बं मनसि भवति यदा मनः स्वच्छम् अस्ति मनसि मलाः न सन्ति तदानीं चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति यतोहि मनः सम्यक्तया वर्धितं वर्तते परन्तु अन्येषु जीवेषु मनः सम्यक्तया वर्धितं नास्ति तत्र एककोशः जीवः इति वयं पश्यामः चेत् तत्र केवलं तत्र चित्तमेव भवति तत्र आं तत्त्वं महत्तत्त्वं तु तत्र तत्र पोटेन्षियल् पोटेन्षियल् फ़ार्म् मध्ये भवति इत्युक्ते एक्टिव् न भवति अस्ति परन्तु एक्टिव् नास्ति इतोहि अग्रे पश्यामः चेत् सस्यानि वयं पश्यामः चित्तमस्ति तत्र केषुचित् सस्येषु तत्र अहम् अहं तत्वमपि भवितुमर्हति इति एवं वयं पश्यामः तत्र तदनन्तरं पशु अपि तत्र अहङ्कारः भवति महत्तत्वं प्रादा तत्र किम् इनिषियल् स्टेजस् मध्ये भवति इति एवं रीत्या तत्र मनसः बहवः स्तराः सन्ति परन्तु मनुष्येषु मनः सम्यक्तया वर्धितमस्ति तत्र चैतन्यस्य प्रतिबिम्बः सम्यक्तया सम्पूर्णतया भवति सम्पूर्णतया भवितुम् अवकाशः अस्ति इति कथं जीवस्य आविर्भावः भवति इति विषयः अत्र अवगन्तव्यं बहु रुचिकरमस्ति कथं तत्र क्षितितत्वात् जीवस्य आविर्भावः भवति इति यदा अनुकूलवातावरणमस्ति इत्युक्ते अनुकूलवातावरणम् इत्युक्ते प्रापर् टेम्परेचर् प्रापर् आक्सिजेन् आल् द एलिमेण्ट्स् दट् आर् नीडेड् फ़ार् लैफ़् तत् सर्वं सम्यक् अस्ति चेत् तदानीम् एमर्जेन्सि आफ़् लैफ् भवति जीवस्य आविर्भावः भवति ओके अत्र कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि अग्रे गच्छामः तर्हि इदानीम् अग्रे किं सरिता बिनी पठितुम् इच्छति वा आं भगिनि नमस्कार नमस्कारः सूक्ष्मतः स्थूलपर्यन्तं सृष्टिः क्रमेण विकसित विकसित सूक्ष्मं चित्तं क्रमेण स्थूलं त्वं बभूव एवमेव पुनः शनैः प्रत्यागच्छेत् घनीभूतं कृतं एकदा एव द्रवीकर्तुं तथैव चित्तम् यत् स्थूलपृथ्वीरूपेण वर्तते तत् क्रमेण सूक्ष्मम् भवति तत् चित्तम् क्रमेण स्थूलात् सूक्ष्मं प्रति प्रगच्छति इति पृथिव्यां वनस्पतेः जन्तोः जीवस्य विकासेन प्रदर्शितम् अस्यां पृथिव्यां प्रथमः तस्य जीवः कायी तार, प्रारम्भिक शैवालस्य कायरं कावरम् च इति वनस्पतिवर्गरूपेण प्रादुर्भूतं कायी निर्जीवा इति वक्तुं न शक्यते यतः सा किञ्चित् चैतन्यस्य प्रतिबिम्बं दर्शयति दर्शयति यत् किमपि तत् प्रतिबिम्बं भवेत् अत्र वयं पूर्वं दृष्टवन्तः प्रथमं सूक्ष्मतः स्थूलक्षितितत्त्वं प्राद् आगच्छति ततः पुनः इदानीं स्थूल क्षितितत्वात् सूक्ष्मं प्रति गच्छति प्रथमतः प्रथमतः काई एक कोश तत्र कायी एकोशीवर्माण तिम किचित प्रारंभिकवस्थाया वर्त तैतन कि प्रतिबिंब वर्त है तो नीति किंतु पूर्णतः चैतन्य प्रतिबिंब न दर्श दृश्य है अतः शनै शनै स्थूला पुनः भवति सूक्ष्म गिन सम्यूपे प्रकटीकरण सूक्ष्मेण कायी तदन वनस्पति तदन पशुपक्षि तर मनुष्य चित आ हा सम्यक् सम्यक् भगिनी समीचीनं तदेव यद् इदानीम् उक्तं सम्यक् भगिनी भगिन्या सम्यक् उक्तं तर्हि अत्र यदा तमोगुणस्य प्रभावः स्थितितत्त्वस्य उपरि अधिकं भवति तदानीं तत्र यदा अनुकूलवातावरणम् अस्ति तदानीं जीवस्य आविर्भावः भवति प्रथमतया प्रारम्भिकस्तरीय स्तरीयः स्तरीय स्तरीयजीवाः आगच्छन्ति तत्र कायि इति प्रथमः अस्ति तत्र कायी इति यः जीवविशेषः अस्ति तस्मिन् तस्याम् मनः वर्तते मनः वर्तते परन्तु मनः मनः अपि अस्ति जीवात्मा अपि अस्ति परन्तु मनसः विकासः नास्ति प्रारम्भिकस्तरीयः स्तरीयं मनः वर्तते इति कृत्वा तत्र तस्मिन् चैतन्यस्य प्रतिबिम्बः नास्ति इत्युक्ते कायी इति यदा वयं कायीं पश्यामः तदानीं वयम् अवगच्छामः एतत्तु बहु स्थू स्थूला वर्तते तत्र तत्र चैतन्यमेव नास्ति चैतन्यस्य प्रतिबिम्बं नास्ति इति वयं चिन्तयितुं शक्नुमः परन्तु तस्मिन् तस्मिन् तस्यामपि चैतन्यं वर्तते यद्यपि तत्र चैतन्यस्य प्रतिबिम्बः नास्ति यतोहि मनसः वर्धनं नास्ति अतः चैतन्यं नास्ति इति भाति परन्तु वस्तुतः चैतन्यम् अस्ति तत् तत्रापि चैतन्यं वर्तते खलु जीवः एव अस्ति परन्तु जीवः नास्ति इति भाति प्रारम्भिकस्तरीयः अस्ति इति कृत्वा अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः भगिनि प्रारम्भिकशैवालस्य कावरम् इत्यार्थं किमस्ति प्रारम्भिकशै इत्युक्ते शैवालः इत्युक्ते शैवाल कावरम् मौ, इत्युक्ते इत्युक्ते आल्गे मोसस् एतत् सर्वं वयं पश्यामः चेत् तत्र जीवः नास्ति इत्येव भाति वस्तुतः तत्रापि जीवः अस्ति अस्तु तर्हि इदानीम् अग्रे गच्छामः तर्हि किं विजयाभगिनी पठितुमिच्छति वा आं महोदय नमस्कारः नमस्कारः अस्तु तदनन्तरं पत्रपुष्पयुक्ताः वनस्पतयः अस्तित्वं प्राप्तवन्तः तेषु वयं जीवनस्य पृष्टानि चिह्नानि प्राप्नुमः एतेषु तानि स्पष्टानि चिह्नानि स्पष्टानि चिह्नानि प्राप्नुमः एतेषु च निश्चयेन सायि इत्य अपेक्षया चैतन्यस्य स्पष्टतरं प्रतिबिम्बं भवति ततः अधमपशवः व्यक्ताः एतान् अनुसृत्य उत्तर उत् उत्तरोत्तरपशवः उत्तर व्यक्ताः शृङ्गालयाः अन्ते मनुष्याः आ महोदय आं महोदय शृङ्खलायाः अन्ते मनुष्याः अस्तित्वं प्राप्तवन्तः एवं वयं पश्यामः यत् पृथिव्याम् आदिमा सृष्टिः कायी आसीत् अद्य अत्यन्तं प्रहतः च मानवः आसीत् कायी इत्यस्यां चैतन्यस्य प्रतिबिम्बम् अस्ति परन्तु तस्यां तावत् चैतन्यम् अस्पष्टं भवति यत् चैतन्यस्य उपस्थितेः विषये सन्दिग्धबुद्धिः भवति मनुष्ये तु चैतन्यं स्पष्टतया प्रतिबिम्बि प्रतिबिम्बितं दृश्यते सृष्टिः क्रमेण वनस्पतिसमूहात् मनुष्यपरि विकसितम् एवं चैतन्यस्य प्रतिबिम्बं क्रमेण स्पष्टतरं भवति अन्ते तत् मनुष्येषु पूर्णं भवति स्थूलेषु चैतन्यप्रतिबिम्बं न्यूनं दृश्यते किन्तु सूक्ष्मेषु तु चैतन्यं uh, महत्तरम् अस्ति अर्थात् सूक्ष्मतायाः सूक्ष्मतायाः अथवा स्थूलतायाः प्रक्रमः प्रक्रमः प्रक्रमः चैतन्यस्य प्रतिबिम्ब प्रतिबिम्बस्य स्पष्टतायाः प्रक्रम प्रक्रमम् अपि सूचयति पृथिव्याम् आदी आदिमतमं जीवनं कायी अस्ति सा अत्यल्पं चैतन्यं दर्शयति सृष्टेः अत्यन्तं प्रहत् प्रहत, प्रहत, प्रहत प्रहततमः जीवः तु मानवः सः च चैतन्यस्य अद्य अत्यन्तं स्पष्टं प्रतिबिम्बं प्रदर्शयति सायी पृथिव्यां स्थूलतमं जीवनरूपम् अस्ति मनुष्याः च सूक्ष्मतमाः इति भावः सायी इत्यस्मात् सूक्ष्मतराः मनुष्याः एवम् एवम् अस्मिन् चरणे सृष्टेः प्रक्रिया स्थूलात् सूक्ष्मपर्यन्तं भवति Uh, इदानीम् अत्र uh, पत्रपुष्पयुक्ताः वनस्पतयः अस्तित्वं प्राप्तवन्तः अत्र वयं uh, जानीमः अत्र देवः मनुष्यः त्रियक् अनन्तरं uh, ताव स्थावराणि सन्ति इति इदानीमत्र वनस्पतेः अपि अस्तित्वं प्राप्तवन्तः अत्र पत्रपुष्पयुक्ताः तेषु वयं जीवनस्य कष्टानि चिह्नानि प्राप्नुमः अत्र एतत् वनस्पति अस्तित्वम् अस्ति इदानीमत्र जीवनस्य स्पष्टानि चिह्नानि अपि प्राप्नुमः एतेषु च निश्चयेन कायि इति अपेक्षया चैतन्यस्य स्पष्टतरं प्रतिबिम्बं भवति अत्र सर्वत्र आ, चैतन्यम् अस्तित्वमस्ति एतत् दृष्ट्वा अत्र वयं वक्तुं शक्नुमः सर्वत्र अत्र चैतन्यस्य प्रतिबिम्बं भवति इति अदमपशवः व्यक्ताः अत्र पशवः द्वौस्तः अदमः अत्र साधु इति इदानीम् अदमपशवः व्यक्ताः इति एतान् अनुसृत्य उत्तरोत्तरपशवः व्यक्ताः सर्वे अत्र व्यक्ताः एव अत्र अदमपशवः अनन्तरम् अत्र उत्तरोत्तरपशवः इति अपि अस्ति अत्र एतत् व्यक्ताः स्पष्टीकरणार्थम् अत्र द्रष्टुं शक्नुमः स्पष्टतया अनन्तरम् अत्र शृङ्गालयाः न अधमः साधुः भगिनी साधुः असाधुः हु, इति नास्ति अत्र इत्युक्ते प्रथमतया प्रारम्भिक प्रारम्भिकस्तरीयाः अनन्तरम् इतोपि ये वर्धिताः तथा असाधु असाधु इति नास्ति विषयः अत्र अधमः किं सूचयति महोदय अधमः इत्युक्ते प्र, प्रिमिटिव् इत्यर्थः प्रिमिटिव् mm -hmm. अस्तु अस्तु इदानीमत्र mm. एतान् अनुसृत्य इदानीमत्र शृङ्खलायाः अन्ते मनुष्याः अस्तित्वं प्राप्तवन्तः शृङ्खलायाः अन्ते मनुष्याः किम् अस्ति अत्र महोदय शृङ्खलायाः इति पशवः एव अन्ते मनुष्याः अस्तित्वं प्राप्तवन्तः एवं वयं पश्यामः यत् पृथिव्यां इदानीमत्र एवं वयं पश्यामः यत् पृथिव्याम् आदिमा सृष्टिः कायी आसीत् काये इत्युक्ते किं महोदय महोदय टैप् आफ् मासेस् आल्गे मोसेस् आल्गे जले वयं पश्यामः खलु ग्रीन् इति भवति अस्तु mm. इदानीम् अत्र uh, पृथिव्याम् आदिमा सृष्टिः काये आसीत् इति अत्यन्तं प्रहतः च मानवः आसीत् अतः सर्वाणि अत्र वस्तूनि प्रथमं प्रह आगतः अनन्तरम् अत्र अत्यन्तं प्रहतः च मानवः आसीत् सायी इत्यस्यां चैतन्यस्य प्रतिबिम्बम् अस्ति सर्वत्र प्रतिबिम्बम् अस्ति इति वयं प्रथमपत्रकमपि दृष्टवन्तः इदानीं परन्तु अत्र तस्यां तावत् चैतन्यम् अस्पष्टं भवति यत् चैतन्यस्य उपस्थितेः विषये सन्दिग् सन्दिग्धबुद्धिः अत्र चैतन्यस्य उपस्थितेः विषये अस्ति वा नास्ति वा इति अत्र उपस्थितम् अस्ति चैतन्यस्य उपस्थितं सर्वत्र अस्ति एव अत्र सन्दिग्धबुद्धिः भवति अस्ति वा नास्ति वा इति मनुष्ये चैतन्यं स्पष्टतया प्रतिबिम्बत्वं दृश्यते सर्वत्र इदानीम् अत्र जलमस्ति अत्र अस्माकं कृते अत्र दृश्यते चेत् जलमपि प्रतिबिम्बम् अस्माकं अत्र रूपं प्रतिबिम्बरूपेण दृश्यते एव इदानीम् अत्र सृष्टिः क्रमेण वनस्पतिसमूहात् मनुष्यपर्यन्तं विकसिता आम् वनस्पतिसमूहात् अत्र वने अनन्तरं सर्वत्र अस्माकं कृते वनस्पतयः तिष्ठन्ति एव एतत् समूहात् मनुष्यपर्यन्तम् विकसिता भवति एव विकसिता भवति एवं चैतन्यस्य प्रतिबिम्बं चैतन्यं बहु महत्तरम् अस्ति अत्र सरपतमप् इति प्रयोगं कृत्वा महत्तरम् इति भवति इति चैतन्यम् चैतन्यं महत्तरं भवति इति इदानीं मनुष्येषु पूर्णं भवति न अत्र आम् सृष्टिः क्रमेण वनस्पतिसमूहात् मनुष्यपर्यन्तमेकस्य एवं चैतन्यस्य प्रतिबिम्बं क्रमेण स्पष्टतरं भवति अन्ते तत् मनुष्येषु पूर्णं भवति यत्र कुत्रापि किञ्चित् किञ्चित् भवन्ति यत्र पूर्णतया भवति चेत् अत्र मनुष्येषु पर्यन्तं यत्र आगच्छति तत् समये पूर्णं भवति इति स्थूलेषु चैतन्यप्रतिबिम्बं न्यूनं दृश्यते स्थूलेषु सूक्ष्मेषु बहवः सन्ति परन्तु स्थूलेषु चैतन्यप्रतिबिम्बं न्यूनं दृश्यते किन्तु सूक्ष्मेषु तु चैतन्यं महत्तरम् अस्ति वयं जानीमः एतद्विषये इदानीम् अर्थात् सूक्ष्मतायाः अथवा स्थूलतायाः प्रक्रमः प्रक्रमः चैतन्यस्य प्रतिबिम्बस्य स्पष्टतयाः प्रकर प्रक्रमम् अपि सूचयति किं प्रथमम् अस्ति किम् अन्ते आगच्छति एतत् वनस्पतयः आदिमः अनन्तरं कायि इति आदिमः भवन्ति क्रमेण अत्र वनस्पतयः अन्ततो गत्वा आगच्छति इति इदानीं पृथिव्याम् आदिमतमं जीवनं कायी अस्ति इदानीमेव वयं दृष्टवन्तः सा अत्य अत्यल्पं चैतन्यं दर्शयति क्षणम् एकं कर्मकरी आगतवती अपि शमलमाग महोदय अत्र सा अल्पत्वं चैतन्यं दर्शयति तिष्ठेके अत्यन्तं अत्यन्तं प्रकृततमः जीवः तु मानवः प्रकृततमजीवः तु मानवः एतत् वयं सर्वं पूर्वमेव ज्ञातवन्तः इदानीं सः च चैतन्यस्य अत्यन्तं स्पष्टं प्रतिबिम्बं प्रदर्शय प्रदर्शयति कायी प्रथिव्यां स्थूलतमम् जीवनरूपमपि स्थूलतमं मनुष्याः च सूक्ष्मतमाः इति भावः सूक्ष्मतमा इति भावः अत्र जीवनरूपमस्ति मनुष्याः तु सूक्ष्मतमाः इति अस्ति वा हा मनुष्याः सूक्ष्मता इत्युक्ते तेषां मनः सम्यक्तया वर्धितम् इति कृत्वा चैतन्यस्य प्रतिबिम्बः सम्यक्तया तत्र भवति इति कृत्वा दे हेव् मोर् अवेर्नेस् टु दि अदर्स् अतः तत्र तस्मिन् क्रमे सत्त्वगुणस्य प्रदा प्रधानता अपि वर्तते मनुष्येषु अस्तु अस्तु महोदय सायी इत्यस्मात् सूक्ष्मतराः मनुष्याः एवम् अस्मिन् चरणे सृष्टेः प्रक्रिया स्थूलात् सूक्ष्मपर्यन्तं भवति वयं सर्वं जानीमः अत्र आकाशपर्यन्तं भूमिपर्यन्तम् अस्ति अत्र किञ्चित् सक्रियस्थूलात् तु आरभ्य सूक्ष्मपर्यन्तं सन्ति इति वयं जानीमः तावदेव समीचीनं समीचीनम् इत्युक्ते प्रथमतया कायि इत्यस्य निर्माणं भवति तदनन्तरं सस्यानां आ, तत्र सस्यानि सस्यानि सस्यानां वर्धनं सस्येषु वयं तु जीवः जीव जीवः अस्ति इति तु वयं ज्ञातुं शक्नुमः खलु सस्यानि तु जीवित जीवित जीवितपदार्थः इति वयं ज्ञातुं शक्नुमः खलु तस्मिन् तु चैतन्यस्य प्रतिबिम्बः अस्ति इति वयं ज्ञातुं शक्नुमः परन्तु कायि इति यः विशेषः जीवविशेषः तत्र तु नास्ति इदानीम् अन्ये ततः अग्रे ततः अग्रे तत्र पशूनां ये प्रारम्भिकस्तरीयः पशवः सन्ति प्रारम्भिकस्तरीयपशवः पा, तेषां निर्माणं भवति ततः अग्रे इतोपि ये वर्धिताः इतोपि वर्धिताः पशवः इत्युक्ते येषां मनः इतोपि वर्धितमस्ति तादृशपशूनां निर्माणं शृङ्खला इत्युक्ते इन् द चैन् इन् द चैन् आफ़् एवल्यूशन् लास्ट् केम् ह्यूमन् बीङ्ग्स् अट् द एण्ड् आफ़् द सीरीस् ह्यूमन् बीङ्ग्स् केम् इन् टु बीङ्ग् बीङ्ग् शृङ्खलायां तर्हि एवं वयं द्रष्टुं शक्नुमः तत्र पृथिव्यां प्रथम प्रथमतया प्रारम्भिकस्तरीयः जीवः अस्ति कायि अपि च यः बहु तत्तु तत्तु आ, जीवता जीवता अस्ति तत्तु विकसितः जीवः अस्ति तत्तु मनुष्यः अस्ति विकसितः जीवः तु मनुष्यः कायी इत्यस्य इत्यस्यां चैतन्यस्य प्रतिबिम्बं सम्पूर्णतया नास्ति अतः कायी जीवितः जीवितः अस्ति वा न वा इति संशयः जायते परन्तु मनुष्येषु चैतन्यस्य सम्पूर्णतया प्रतिबिम्बः प्रतिबिम्बितं वर्तते चैतन्यम् इति कृत्वा मनुष्यः जीव जीवः अस्ति इति वयं ज्ञातुं शक्नुमः एवं रीत्या तत्र सृष्टिप्रक्रिया क्रमेण क्रमेण सृष्टिप्रक्रिया जायते तत्र कायी इत्यस्मात् सस्यानि ततः अग्रे पशवः तदा ततः अग्रे मनुष्याः तर्हि क्रमेण चैतन्यस्य प्रतिबिम्ब प्रतिबिम्बः क्रमेण वर्धितः यदा मनुष्यः आयाति तदानीं मनुष्येषु तु चैतन्यं सम्पूर्णतया अस्ति ये स्थूलपदार्थाः सन्ति तेषु चैतन्यस्य प्रतिबिम्बः प्रतिबिम्बः सम्यक् नास्ति न्यून न्यूनः एव अस्ति एवम् अत्र वर्धनम् सूक्ष्म स्थूलात् सूक्ष्मपर्यन्तं वर्धनमस्ति तर्हि अत्र अयम् एव अत्र प्रतिसञ्चर्धारा इति इयमेव प्रतिसञ्चर्धारा इति वयं वक्तुं शक्नुमः सृष्टिः प्रक्रिया यत्र स्थूलात् सूक्ष्मपर्यन्तं गमनं तर्हि मनसः त्रयः अंशाः सन्ति चित्तम् अहं तत्वम् एण्ड् महा महत्तत्त्वं ये जीवाः सन्ति तेषु केवलं चित्तमेव अस्ति चित्तमेव कार्यरूपेण अस्ति तेषां तु अहं तत्त्वं महत्तत्त्वं तु नास्ति आक्टिव् रूपेण नास्ति आक्टिव् रूपेण नास्ति इति कृत्वा तेषां प्रारम्भिकस्तरीयमनः वर्तते प्रारम्भिकस्तरीयमनः यस्मिन् चैतन्यस्य प्रतिबिम्बः सम्यक् सम्पूर्णतया नास्ति तर्हि चैतन्यस्य प्रतिबिम्बः इति तु मया प्रतिपादितं यथा तत्र जले यथा जले तत्र छन्दस्य प्रतिबिम्बः भवति सम्पूर्णतया यदा जले मलाः न सन्ति तथा यदा अस्माकं मनः सम्यक्तया वर्धितं तस्मिन् मलाः न सन्ति तत्र तु चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया भवति इति मया उक्तम् तर्हि प्रारम्भिकस्तरीयेषु जीवेषु केवलं चित्तमेव भवति तत्र अहं तत्वं महत्तत्त्वं तु सुषुप्त अवस्थायां भवति सुषुप्तवस्थायां भवति तदनन्तरं यदा तत्र सस्यानि आगच्छन्ति सस्येषु अपि च पशुषु तत्र अहं तत्वमपि अस्ति अहं तत्त्वमपि एक्टिव् रूपेण अस्ति तदनन्तरं तत्र पशुषु यदा वयं वानरं वयं पश्यामः वानरेषु तु महत्तत्त्वमपि तत्र आक्टिव् रूपेण अस्ति तर्हि वयं तत्र तत्र तत्र चैतन्यस्य अपि प्रतिबिम्बः चैतन्यस्य प्रतिबिम्बं प्रतिबिम्बः वर्धितः अस्ति यदा मनुष्याः आयान्ति तस्मिन् तु मन् मनसः हा त्रयः अंशाः अपि सन्ति तस्मिन् इति कृत्वा चैतन्यस्य प्र प्रतिबिम्बः सम्पूर्णतया भवति इति एवं क्रमः अस्ति अस्माकं आ, प्रति संशर्धारायां अस्तु अत्र कोऽपि संशयः अस्ति वा सिक्स् ओ क्लाक् टु टेन् ओ क्लाक् डार्विन् यस् एक्साक्टि एक्साक्टि फ्रम् सिक्स् ओ क्लाक् टु टेन् ओ क्लाक् दार्विन् रेल्यूशन् इस् वाट् एक्साट्लि डिस्क्रैब् सो यद् अत्र उच्यते तत्तु वैज्ञानिक वैज्ञानिकैः अपि अङ्गीक्रियते अत्र यद् उक्तम् इत्युक्ते षड् षड्वादनात् पूर्वं ते न जानन्ति यदा जीवः आयाति तदनन्तरं वर्धनं कथं भवति इति ते वदन्ति परन्तु षड्वादनं पर्यन्तं किम् अस्ति इति ते न किं जायते इत्यपि ते न जानन्ति शिष्टिप्रक्रियायाम् अस्तु तर्हि अत्र शान्तभगिनी भवितुं बव, पठितुम् इच्छति वा पठामि एकं प्रश्नमस्ति इदानीं वयं पठितवन्तः प्रक्रिया स्थूलात् सूक्ष्मं पर्यन्तं भवति इति कथं भवति बहु स्थूलम् अस्ति स्थूलपर्यन्तं भवतीति भवेयुः पश्यतु पश्यतु पश्यतु पश्यतु पश्यतु पश्यतु तत्र द्वादशवादनात् आरभ्य षड्वादनपर्यन्तं सूक्ष्मात् स्थूलपर्यन्तं गमनम् इदानीं षड्वादनात् द्वादशवादनपर्यन्तं स्थूलात् सूक्ष्मपर्यन्तं गमनं यतोहि स्थितितत्त्वं बहु बहु स्थूलम् अस्ति ततः अग्रे यः कायी इति अस्ति तत्तु स्थितितत्त्वस्य अपेक्षया सूक्ष्मः अस्ति यतोहि तस्म तस्मिन् चैतन्यं प्रतिबिम्बितम् अस्ति ततः अग्रे मनुष्येषु सस्ये साशे, सस्येषु सर्वेषु चैतन्यस्य प्रतिबिम्बः अस्ति दृश्यते इति कृत्वा तत् स्थूलतमः नास्ति सूक्ष्मः अस्ति इतोपि सूक्ष्मः अस्ति क्षितितत्त्वस्य अपेक्षया सूक्ष्मः अस्ति इतिकृत्वा, तत्र स्थू स्थूलात् सूक्ष्मपर्यन्तं गमनं यदा वयं दशवादनस्य समीपे गच्छामः तदानीम् इतोपि स्थूलः इतोपि सूक्ष्मः भवेत् ना वा न पश्यतु भगिनि तत्र क्षितितत्त्वं स्थूलमस्ति इति अङ्गीकरोति वा न वा स्थूलमस्ति तर्हि इदानीं तत्र यह पशुः अस्ति पशुः स्थूलमस्ति वा हाव् अवेर्नेस् इट् हे अवेर्नेस् रैट् देर् इस् लैफ् इन् इट् इस् रैट् तस्मिन् जीवः अस्ति खलु तत्र क्षितितत्त्वम् इव तत् स्थूलमस्ति वा नास्ति खलु अस्ति हा सूक्ष्म जीवः जीवस्य प्रतिबिम्बः अस्ति खलु तत्र चैतन्यस्य प्रतिबिम्बः अस्ति खलु पुरुषस्य प्रतिबिम्बः अस्ति तत्र जीवः अस्ति जीवरूपेण अस्ति इट् हेज़् अवेर्नेस् तर्हि यदा अवेर्नेस् अस्ति तादृश अवेर्नेस् कदा भवति यदा सूक्ष्मः अस्ति तदानीमेव अवेर्नेस् भवति तत्र पुरुषस्य प्रतिबिम्बः यदा भवति तदानीमेव तत्र एवं वक्तुं शक्नुमः इति कृत्वा स्थूलात् सूक्ष्मपर्यन्तं गमनं गोयिङ्ग् फ्रोम् द सिटि तत्त्वाट् टु पुरुष इस् गोयिङ्ग् टुवर्ड्स् सूक्ष्म So kramena, everything is getting more sukshma, sukshma, sukshma. So then as you क्रमेण एव्रिथिङ्ग् इस् गेटिङ्ग् मोर् सूक्ष्म सूक्ष्म सूक्ष्म सो देन् एज़् यु गो नियर् लेवेन् ओ क्लाक् ट्वेल् ओ क्लाक् यु बिकम् ईवन् मोर् सूक्ष्म Okay. Okay, okay. Okay, मोर् So it is not the physical uh, uh, development, it is the mental development. पठतु किया मानसिकस्तरे फिसिकल् डेवलप्मेण्ट् इत्यपि भवितुम् अर्हति अर्हति यतोहि फिसिकल् डेवलप्मेण्ट् नास्ति चेत् द बाडि शुड् बि अप्रोप्रियेट् टु फिट् द मैण्ड् द अड्वान्स्ड् मैण्ड् पशुशरीरे मान मनुष्यस्य मनः न भवितुम् अर्हति तत्र शरीरस्य वर्धनमपि भवति मनसः अपि वर्धनं भवति ओके चैतन्यस्य परमावस्था सूक्ष्मा इति पूर्वम् उक्तम् चैतन्यस्य परम अवस्था सूक्ष्म इति पूर्वमुक्तम् अस्याम् अवस्थायां स्थूलतः सूक्ष्मपर्यन्तं सृष्टेः प्रक्रियायाः अर्थः अस्ति यत् सृष्टिः निर्गुणपुरुषं प्रतिप प्रगच्छति इति प्रकृतेः गुणप्रभावेन सूक्ष्मचैतन्यात् सृष्टिः स्थूलरूपेण प्रकटिता अस्ति पुनः इदानीं सा सृष्टिः स्थूलात् सूक्ष्मं प्रति प्रगच्छति प्रकृतेः गुणप्रबलतायाः कारणेन चैतन्यं प्रथमं स्थूलरूपं गृह्णाति पश्चात् पुनस्तस्मात् स्थूलरूपात् सूक्ष्मं निर्गुणपुरुषं प्रति प्रगच्छति एवं समस्तसृष्टेः द्वे अवस्थे सः प्रथमावस्थायां सूक्ष्मात् स्थूलपर्यन्तम् परिवर्तनस्य प्रक्रिया अस्ति द्वितीयावस्थायां तु स्थूलात् सूक्ष्मपर्यन्तं परिवर्तनस्य प्रक्रिया च भवति ओके चैतन्यस्य वे अवस्थायाः सन्ति सूक्ष्मतरं स्थूलतरं प्रथम अवस्थायाः स्थूलतरं भवति प्रकृतेः प्रक्रियाः याः यत् सृष्टिः भवति तदानीं गुणप्रकृतेः गुणप्रभावेण सूक्ष्मचैतन्यात् सृष्टिः स्थूलरूपेण वयं दिश्यामह प्रकटयति पुनः तायेव एव सृष्टिः स्थूलरू स्थूलात् सूक्ष्मं प्रति प्रगच्छति प्रकृतेः गुणबल् गुणप्रबलतायाः कारणेन चैतन्यं चित्ते मम वय आवयोः चित्ते स्थूलरूपं गृह्णाति पश्चात् तथैव स्थूलरूपात् निर्गुणपुरुषं प्रति प्रगच्छति तत् तस्मात् सूक्ष्मरूपं प्रगृह्णाति अत एव प्रकृतेः द्वितीय अवस्थायां स्थूला स्थूलात् सूक्ष्मपर्यन्तं परिवर्तनं भवति इति वयं प्रकृतेः प्रक्रियायाः अनुभवपूर्वम् अनुभवपूर्वं स्वीकरं स्वीकारं कुर्मः समीचीनम् अस्मि समीचीनम् तत्र षड्वादनात् द्वादशवादनपर्यन्तं सूक्ष्म स्थूलात् सूक्ष्मपर्यन्तं गमनं यतोहि तत्र सत्त्वगुणस्य प्रधानता अपि इत्यपि स्मर्तव्यं यत्र सत्त्वगुणस्य प्रधानता भवति तत्र सूक्ष्मं सूक्ष्मः इति वयं वदामः खलु यथा महत्तत्त्वं महत्तत्त्वं सत्त्वगुणस्य प्रभावेन महत्तत्त्वं निर्मितं तत्र महत्तत्त्वस्य तत्र इन्द्रियेण अस्माभिः द्रष्टुं न शक्नुमः महत्तत्त्वम् अहं तत्त्वमपि न द्रष्टुं शक्नुमः चित्तमपि न द्रष्टुं शक्नुमः परन्तु यत्र तत्त्वगुणस्य प्रधानता भवति तत्र सूक्ष्मः सूक्ष्मता अस्ति इति वयं वदामः परमपुरुषः तु गुणस्य गुणम् अतिरिच्य अस्ति इति कृत्वा सः गुणातीतः अस्ति तत्र गुणः गुणः एव न भवन्ति परन्तु अत्र प्रतिसञ्चरधारायां सत्त्वगुणस्य प्रधानता भवति अतः तत्र स्थूलात् सूक्ष्मपर्यन्तं गमनं सञ्चरधारायां पुरुषः हा सूक्ष्मः अस्ति तस्मात् क्रमेण स्थूलीकरणं जायते स्थूलीकरणं जायते यदा पञ्चभूतानि निर्मितानि पञ्चभूतानि सर्वाणि स्थूल स्थूलभूतानि तर्हि श्रुतितत्त्वं वयम् आगच्छामः चेत् स्थितितत्त्वं बहु इति कृत्वा एवम् एवं रीत्या तत्र क्रमः अस्ति सृष्टिक्रमः अस्ति अवस्थाद्वयं वर्तते अस्तु अस्तु अत्र स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि धन्यवादः नमस्कारः नमस्कारः धन्यवादः शुभवादः धन्यवादः धन्यवादः धन्यवादः